श्रीमद्भागवतमहापुराणं नवमं स्कन्ध अष्टादशोऽध्यायः वृस्पर्वासमाज्ञाय प्रत्यनीकविवक्षितं गुरुं प्रसादयन्मूर्ध्यापादयो पतितपथे चलार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः कामोऽ क्रियतां राजन्नैनां त्यक्तो मिहोषहे तथेत्यवस्थिते प्राह देवयानी मनोगतं भित्रा दत्तायतो यास्ये सानुगायात् मापन्मा वनु स्वानां तत्सङ्कटं व्यक्ष तदर्थस्य च गौरवम् देवयानीं पर्यचरन् स्त्रीसहस्रेण दासवत् नाहुषाय सुतां दत्त्वा सह सर्वेष्ठयोशनाम् तमाह राज शर्मिष्ठाम् आधास्तल्पेन कर्हि चे विलोक्यौ शनसिं राजन् शर्मिष्ठां स प्रजां क्वचे तमेव वव्रे रहसि सख्याः पतिमृतौ सते पत्ये धर्मं चावेक्ष धर्मवे स्वरं शुक्रवचकारे जदुं च तुर्वसुं चैव देवयानीं विजायत दुह्युं चानुं च पुरुं च सर्वेष्ठापाशपर्वणि गर्भशम्भुमासुर्यां भृतिर्विज्ञायमानने देवयाने पितुर्गेऽहं जयौ क्रोधविमूर्छिताम् प्रियामकुगतकामे वचोभिरुपमन्त्रयन् न प्रसादयितुं शेके पादसंवाहनादिभिः शुक्लस्तमाः कुपितः श्रीकामान्वितपूरुष त्वां जराविशतां मन्दविरूपकर्णीणां ययातिरुवाच अचिप्तोऽस्मद्यकामानां इति लब्धव्यवस्थानपुत्रं देशम् अवोचत् जदोतात् प्रतीक्षे मां जरां देहि निजं वयः मातामहकृताम्बश्च न तृप्तो विषयेष्वहं वयसा भवदीयेन रंशे कतिपया शमाः यदुर्वाच नो सहेजरसा स्थातुम् अन्तरा अविदित्वा सुखम् ग्राम्यं वै तृष्णतं यं नेति पित्रा धुर्वसुश्चोदितपित्रा दुह्योश्चानुश्च भारत तत्या चक्षुरधर्मज्ञाश नित्ये नित्यबुद्धयः अप्रेक्षत्तणयम् पूरुं वै गुणाधिकं गुणाधिकम् न त्वमग्रजम् वधवः को नु पितुरात्मा कृतपुमान् प्रतिकर्तुं समू यस्य प्रसादाद्विन्दते परम् उत्तमश्चिन्ति कुर्यात् प्रोक्तकारी तु मध्यमाम् अधमो श्रद्धया कुर्याद् अकर्तुरितं पितुः विचि प्रमुदित पूरुः प्रत्यगृह्माजरां पितुः त्वपि तद्वेषा कामान् यथावज्जुजुषे सप्तदीपति सम्यक् पितृवत्पालयन् प्रजाः यथोपजोषं विशयाञ्जुसुसेव्याहतेन्द्रितः देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः प्रेयस परमां प्रीतिर्मुवाह प्रेयसीरहः अजियजज्ञपुरुषं चतुभिर्भूरि दक्षिणै सर्वदेवमयं देवं सर्ववेदमयं भरिम् यस्मिन्निदं विरचितं व्योम्नेव जलदावलिः नानेव भाति नाभाति स्वप्नमाया मनोरथः तमेव श्रुतिविन्यस्य वासुदेवं गुहाशयं नारणाय मलीयां सं निराशीर यजयद् प्रभुम् एवं वर्षसहस्राणि मनः श्रेष्ठैर्मनः सुखम् विदधानोऽपि श्रे <Sess> श्रीमद्भागते महापुराणे प्रमुचां चैतायाम् नमः स्कन्धे अष्टादशोऽध्यायः